गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् त्रि क उवाच उत्कर्षं तस्य दैत्यस्य दृष्ट्वा देवस्त्वरान्वितः अययौ पुरदो दैत्यं जघानशरवृष्टिभिः न्यवारयद द दैत्योऽपि स्वशरैरतिवेगितैः दै ततस्तुतोष भगवान मयूरेशो गुणाग्रणी दर्शयामास तस्मै सविश्वरूपमनन्तकं दशदिक्षु मयूरेशं ददर्शकमलासुरः विस्मितश्चाद्य नयने हृदिदं परिदृष्टवान् ततः पलायनपरो यावद्गच्छति दैत्यराट शिखामाक्रम्य देवोऽपि धृत्वा प्रोवाच तं पुनः तिष्ठयुध्यस्वदैत्येन्द्रस्मरवाक्यानि तानि च पुनर्ददर्शदैत्यस्तमेघमेव पुरस्थितम् अधावत् सहसा योद्धुं जगर्ज च महाबली दशायुधरो देवो बोधयामासतं तदा बिभेदास्य शरीरं स विघ्नराट् शस्त्रखादतः यत्रास्यन्यपद्रक्तबिन्दुस्तत्रासुरो भवद तद्रूपस्तद्बलश्चैवमसङ्ख्यातास्तदा सुराः नाना शास्त्रैरथास्त्रैस्तेत्तं जघ्नुशरवृष्टिभिः कदःपरावृतो देवो मयूरे शोरुषाज्वलन् सार्थकोटित्रयमिधैः सिद्धिबुद्धि तदा बलैः यदुः परमक्रुद्धे ततो युद्धमवर्तत ऊच दुर्गणराजं ते क्षुधापहम् त भक्षदं देवो दैत्याश्रु जनितान् बहून् युत्युक्ते ते तदा तेन मयूरेशेन सत्वरं बभक्षदुर्भुदगणैस्तान् दैत्यानखिलानपि देवोजखान खड्गेन तं दैत्यं कमलासुरम् पुनश्च शदशो जादा दैत्यास्तद्रक्तसम्भवाः बभक्षुस्तानपि ततो पिबन् रक्तम् समन्दधः तदः किन्नो मयूरेश्यशूलमुद्यम्य तत्याजसहसा दैत्येयौ दिशः चूर्णयन् पर्वतान् व्योमनादयन्भानिपादयन् वेगेन पदिदो दैत्यदेहं भित्त्वा द्विधा करोद मस्तकस्तस्य पदिदो भीमाय दक्षिणे तडे कृष्णाया उत्तरे तीरे तस्तौ तत्र गुणेश्वरः सर्वे सन्तुष्टमनसो जयशब्दैस्तमब्रुवन् जय देवमयूरेश कुरु दुष्टविनाशनं तदस्तत्रायौ गौरीपदिर्गणपरीवृतः गौतमाद्यैश्च मुनिभिः पार्वत्या च समायुधः वाद्यात्सु सर्ववाद्येषु पुष्पवृष्टिः पपातकाद पा आलिङ्ग्यपार्वती पादास्तनपानं मुदा तदा मुनयस्तुष्टुवुश्चैनं मयूरेशं सुरेश्वरम् कमलाकान्तहृदय हृदयानन्दवर्धन कमलाकान्तनमिद कमलासुरनाशन कमलासेवितपद जयत्वं त्वं कमलाप्रद कमलासनवन्द्येशकमलाकरशीतल कमलाङ्गसुपादाब्ज कमलाङ्गितसत्कर कमलां बन्धुतिलकभक्तानां कमलाप्रदा कमला सूनु रिपूज कमलासूनुसुन्दर कमलासुरबाणानां कमलेन निवारक कमलाक्रान्तकमल कोशजित्करपङ्कज कमलापदि हस्तपद्मकोशनिभेक्षण सर्वहृत्कमलानन्दजय सर्वाकनाशन कमलाङ्कुशहस्ताब्जय विघ्नहराव्यय त्वया विनिहदपापश्चक्रादिभयदो रिपुः वज्रचक्राद्य भेद्यो यो मुनीनामभिधिदः एवं स्तुत्वा पुबुजस्ते गौधमाद्या महर्षयः दशभिर्दोर्भिरालिङ्ग्य पुबुज गिरिशोऽपिदम् तदस्ते मुनयप्रोजुर्मयूरेशं च शङ्करम् अत्र त्वं सर्वदा तिष्ठ सर्वदेवगणैर्युधं पूरयन् भक्तकार्याणि वारयन् विघ्नसञ्चयान क उवाच एवं तै प्रार्थितौ देवौ सर्वदेवगणयुधौ पूरयन्दौ भक्तकामान् करन्दौ विघ्नसञ्चयान स्थितौ तत्र मयूरशङ्करौ लोकशङ्करौ विश्वकर्मा व्यधात्तत्र मन्दिरं सुन्दरं ततः असङ्ख्यशिखरद्वारमसङ्ख्याश्चर्यसंयुतं तत्राभूनगरं चारु सर्वलोकसमन्वितम् मयूरेश पुरं तस्य नाम चक्रोर्महर्षयः तपःस्थे पुर्मुनिगणानाभरणसंश्रिताः हरोऽपि च तपःस्थे पे गिरिजागणसंयुतः तस्य ध्यानं पूजनं च स्मरणं ते व्यधुर्द्विजाः मयूरेश पुनर्बालै क्रीडति स्म श्री श्रीगणेशपुराणे क्रीड़ाखंडे कमलासुर वधो नाम त्रिउत्तर त्र्युतरश्याय